षडशीतितमः सर्गः आचचक्षेधसद्भावम् लक्ष्मणस्य महात्मनः भरतायाप्रमेयाय गुहो गहनगोचरः तम् जाग्रतम् गुणैर्युक्तम् वरचापेषु धारिणम् भ्रातृगुप्त्यर्थमत्यन्तमहम् लक्ष्मणमब्रुवम् इयम् तातसुखाशय्या त्वदर्थमुपकल्पिता प्रत्याश्वसिष्वास्याम् सुखम् राघवनन्दन उचितोऽयम् जनः सर्वो दुःखानाम् त्वम् सुखोचितः धर्मा त्वंस्तस्य गुप्त्यर्थम् जागरिष्यामहे वयम् न हि ममास्ति भुवि कश्चन मोत्सुको भूर्ब्रवीण्येतदथ सत्यम् तवाग्रतः अस्य प्रसादाशंसे लोकेऽस्मिन् सुमहद्यशः धर्मावाप्तिम् च विपुलामर्थकामौ च केवलौ सोऽहम् प्रियसखम् रामम् शयानम् सह सीतया रक्षिष्यामि धनुष्पाणिः सर्वैस्वैर्यादिभिः सह महि मे विदितम् किञ्चिद्वनेऽस्मिंश्चरतः सदा चतुरङ्गम् ह्य विबलम् प्रसहेम एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना अनुनीता वयम् सर्वे धर्ममेवानुपश्यता कथम् दाशरथौ भूमौ शयाने सहसीतया शक्या निद्रामया लब्धुम् जीवितानि सुखानिवा वा यो न देवासुरैः सर्वैः प्रसहितुम् युधि तम् पश्य गुह तृणेषु सहसीतया महता तपसा लब्धो विविधैश्च परिश्रमैः एको दशरथस्यैष पुत्रः सदृशलक्षणः अस्मिन् प्रव्राजिते राजा न चिरम् वर्तयिष्यति विधवामेदिनी नूनं नूनम् क्षिप्रमेव भविष्यति विनद्य सुमहानादम् श्रमेणोऽपरता स्त्रियः निर्घोषो विरतो नूनमद्य राजनिवेशने कौसल्या चैव राजा च तथैव जननी ममा नाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमा जीवेदपि च मे माता शत्रुघ्नस्यान्वपेक्षया दुःखिता या हि कौसल्या वीरसूर्विनशिष्यति अतिक्रान्तमतिक्रान्तमनवाप्यमनोरथम् राज्ञे राममनिक्षिप्य पिता मे विनशिष्यति सिद्धार्थाः पितरम् वृत्तम् तस्मिन् काले ह्युपस्थिते प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भोगिपम् रम्यचत्वर संस्थानाम् स्वविभक्तमहापथाम् हर्म्यप्रासादसम्पन्नाम् सर्वरत्नविभूषिताम् गजाश्वरथ सम्बाधाम् तूर्यनादविनादिताम् सर्वकल्याणसम्पूर्णाम् हृष्टपुष्टजनाकुलाम् आरामोद्यानसम्पूर्णाम् समाजोत्सवशालिनी सुखिता विचरिष्यन्ति राजधानीम् पितुर्ममा अपि सत्यप्रतिज्ञेन सार्धम् कुशलिना वयम् निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि परिदेवयमानस्य तस्यैवम् हि महात्मनः तिष्ठतो राजपुत्रस्य शर्वरीसात्यवर्तत प्रभाते विमले सूर्ये कारयत्वा जटा उभौ अस्मिन् भागीरथीतीरे सुखम् सन्तारितौ मया जटा धरौ तौ द्रुमचीरवाससौ महाबलौ कुञ्जरयूथपोपमौ वरे शुधी चापधरौ परम् तपौ इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे षडशीतितमः